अथ एकोननवतितमोऽध्यायः ययातिरुवाच अहम् ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् प्रभ्रंसितः सुरसिद्धर्षिलोकात् परिच्युतः प्रपताम्यल्पपुण्यः अहम् हि पूर्वो वयसा भवद्भ्यः तेनाभिवादम् भवताम् न यो विद्यया तपसा जन्मना वा पूज्यो भवति द्विजानाम् कष्टक उच अवादी स्वयस प्रवृद्ध सवैराजनाभ्यक्यो विदया तपसा प्रवृद्ध सूज्योति यकूल कर्मण पापमाहु तदर्त प्रवणे पाप लोक्यं सतोषताकूलास्त अभूधनम् मे विपुलं गतम् तद् विचेष्टमानो नाधिगन्ता तदस्मि एवं प्रधार्यात्महिते निविष्टे यो वर्तते स विजानाति धीरः महाधनो यो यजते सु यज्ञैः य सर्वविद्यासु विनीत बुद्धिः वेदानधीत्य तपसा योज्यतेऽहम् दिवं समायात् पुरुषोऽवीतमोहः न जातु दृश्येन्महता धनेन वेदानधीतानहङ्कृतः स्यात् नाना भावा बहवो जीवलोके नष्ट चेष्टाधिकाराः तत्तत्प्राप्य न विहन्येत धीरो दिष्टम् बलीय इति मत्वात्मबुद्ध्या सुखम् हि जन्तुर्यदि वापि दुःखम् दैवाधीनम् विन्दते नात्मशक्त्या तस्माद्दिष्टम् बलवन्मन्यमानो न सञ्ज्वरेन्नापि हृष्येत् कथञ्चित् दुःखैर्न तप्येन्न सुखैः प्रहृष्येत् समे न वर्तेत सदैव धीरः दिष्टम्बलीय इति मन्यमानो न सञ्ज्वरेन्नापि हृष्येत पुनः न सञ्ज्वरेन्नापि हृष्येत्कथञ्चित् भयेन मुह्यां यष्टकाहं कदाचित् सन्तापो मे मानसो नास्ति कश्चित् धाता यथा मां विदधीत लोके ध्रुवं तथाहं भवितेति मत्वा संस्वेद च पुनः संस्वेदजा अण्डजाश्चोद्भिदश्च सरीसृपाः सुमत्स्याः तथाश्मानस्तृणकाष्ठम् च सर्वे दिष्टक्षये स्वाम् भजन्ति अनित्यताम् सुखदुःखस्य बुद्ध्वा कस्मात्सन्तापमष्टकाहम् भजेयम् किम् कुर्याम् वै किञ्च कृत्वा न तप्ये वर्जयाम्यप्रमत्तः दुःखेन खिद्येन्न सुखेन मोद्येत् समे न वर्तेत सधीरधर्मादिष्टम्बलीयः समवेक्ष बुद्ध्या न सज्जते चात्रभृशं मनुष्यः वैशम्पाय न उवाच एवंष्टकः पुनरेवान्वृच्छत्तामहं एवं सवर्गुणे मातामहम् सर्वगुणोपपन्नम् तत्र स्वर्गलोके स्वर्गलोके अष्टक उवाच ये ये लोकाः त्वयान्मे राजन्ब्रूहि सर्वान् क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् अष्टक उवाच ये ये लोकाः पार्थिवेन्द्रप्रधानाः त्वया भुक्तायञ्च कालं यथावत् तान्मे राजन ब्रूहि सर्वान्यथावत् क्षेत्रज्ञद्भाषसे त्वम् हि धर्मान् ययातिरुवाच राजाहमासमिह सार्वभौमैः ततो लोकान लोकान्महतश्चाजयम् वै तत्रावसं वर्ष सहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः ततः पुरीम् पुरुहूतस्य रम्याम् सहस्रद्वारायताम् अध्यावसं वर्षसहस्रमात्रम् ततो लोकम् परमस्म्यपेतः ततो दिव्यमजरं प्राप्य लोकं, प्रजापतेर्लोकपतेर्दुरापम् तत्रावर्षसहस्रमात्रम् ततो लोकम्भ्युपेतः स देवदेवस्य निवेशने च विहृत्य लोकानवसं यथेष्टम् सम्पूज्यमानस्त्रिदशैः समस्तैः तुल्यप्रभावद्युतिरीश्वराणाम् तथावसम् नन्दने कामरूपी संवत्सराशतानाम् सहाप्सरोभिर्विहरन् पुण्यगन्धान् पश्यन्नगान् पुष्पितांश्चारुरूपान् तत्र स्थितम् माम् देवसुखेषु सक्तम् कालेऽतीते महति ततोऽतिमात्रम् दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण एतावन्मे विदितम् राजसिंह ततो भ्रष्टोऽहम् नन्दनात् क्षीणपुण्यः वाचोश्रौषम् चान्तरिक्षे सुराणाम् सानुक्रोशः शोचताम् माम् नरेन्द्र अहो कष्टम् क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः तानब्रुवम् पतमानस्ततोऽहम् सताम् मध्ये निपतेयम् कथम् नु तैराख्याता भवताम् यज्ञभूमिः समीक्षचे माम् त्वरितमुपागतोऽस्मि हविर्गंध देशिकं य भूमे धूमंग प्रतिगृह्य प्रतीत महाभार आदि पर्व संभव पर्व उत्तर